हरिः ॐ स्वाहा प्राणेभ्यः साधिपगिरेभ्यः श्रीव्यैः साहाग्रये स्वाहा दर्घ्याय स्वाहा वायवे स्वाहा जीवे स्वाहा सूर्याय स्वाहा दिभ्याः स्वाहा चन्द्राय स्वाहा नकतेभ्यः स्वाहाभ्याः स्वाहा वरुणाय स्वाहा नाभ्यै स्वाहा पूताय स्वाहा जे स्वाहा प्राणा स्वाहा प्राणा स्वाहा चक्षुभे स्वाहा रक्षुभे स्वाहा श्रोत्राय स्वाहा श्रोत्राय स्वाहा मनसः काममापूजिम्बाजहामशीयु पशूनागुरूपमन्नचरसोजसाः श्रीः सयतां मै स्वाहा प्रजावतिः संभ्रियमाणः संव्रतुभ्रैव सगुंसन् नो घर्मः प्रवृत्तस्तेर जग अश्विनाः वयस्या नीयमाने पौष्णो भृक्षन्दमाने मारुतः क्रथन्नो मैत्रः शरधिदन्दाज्यमाने बालव्यो हृयमाण आग्नेयो हूयमानो बाहुतः सगिताप्रदमेऽहन्नग्निर्द्वितीये बालस्थिति आदितश्चतुजे तन्नमः पञ्चम ऋतुः वष्टे मरुतः बृहत्पतिरमी पितृनवमी वरुणो दशम इन्द्र एकादशी द्विषये देवा द्वादशी उग्रश्च भीमश्च द्वाण्डश्च ऋनिष्ठुं चां चादिवाद् पृथिवाः स्वाहा अग्निकूमहृदये दाशनिकुदयाग्रेण पशुपतिं गृच्छनहृदयेन दा भवञ्जग्नाम् सर्वं मदनाभ्यामीजायं मन्युना महादेवमन्तः परिशव्येनो ग्रन्देवं वलिष्ठुना बु शृङ्गीनिकोश्याभ्याम् उग्रन्दोहितेन मित्रकुमुसौव्रत्येन रुद्रन्दौर्व्रत्येनेन्द्रं प्रीरेण मरुतुः भवजगञ्जगुरुद्यान्तः <्भवया> वारुदं महादेवस्य रव सर्वज्ञः वरुवदे भूरि ततो लोमभ्याः लो साहा लोमभ्याः स्वाहा स्वदे स्वाहा स्वदे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेरुभ्यः मागुरीभ्यः स्वाहा मागुरीभ्यः स्वाहा तावभ्यः स्वाहा तावभ्यः स्वाहा सभ्यः स्वाहा तभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा श्रीरलीताः पायवीताः आयादाय स्वाहा प्रायादाय स्वाहा रञ्जाय स्वाहा व्यादाय स्वाहुद्यादाय स्वाहा शुजे स्वाहा योजये स्वाहा योजमानाय स्वाहा शोकाय स्वाहा सपदि स्वाहा दृत्यभि स्वाहा दृत्यमानाय स्वाहा दुप्ताय स्वाहा धर्माय स्वाहा निःकृत्यै स्वाहा प्रायश्चै स्वाहा भेभजाय स्वाहा यमाय स्वाहागाय स्वाहा च्यवी स्वाहा ब्रह्मणे स्वाहा ब्रह्महत्यायै स्वाहा विश्रेभ्यो देवेभ्यः स्वाहा ज्यावाभिजीवीव्या गु स्वाहा इति